मुरारिकायकालिमाललामारिधारिणी त्रिणीकृतत्रिवेष्टपा त्रिलोकशोकहारिणी मनोनुकूलकुलकुञ्जपुञ्जधूतधुर्मदानोतु मे मनोमलं कलिन्दिनन्दिनी मलापहारि वारिपूर भूरिपण्डितामृता वृषम्प्रपातकप्रवञ्चनातिपण्डितानिशम् सुनन्दनन्दनाङ्गसङ्ग्जिता हिता धुनो तु मे मनोमलम् अनिन्दिनन्दिनेशदा दशतरङ्गसङ्गधूतभूतजातपातका नवीन माधुरी दूरेण भक्तिजात जातका कटान्तवासदास संसृता हि कामदा तुमे ुमे मनोमलं विहार सदा विहाररासखेद भेद धीरतीर मारुता गता गिरामगोचरे यदिरचारुता प्रवाह साह प्रवाहसाहचर्यपूत मेदिनेन दीनदा दुनोतु मे मनोमलं कलिन्दिनन्दिने सदा तरङ्गसङ्गाञ्चितान्तरा सदासिता शरण्यशाङ्करांशुमञ्जुमञ्जरी सभाजिता भवार्चनाय चारुणाम्ब नाथुना विशारदाुनो तु मे मनोमलं करिन्दिनन्दिने सदा धरान्तकेलिकारिचारुराधिकाङ्गरागिणी प्रभर्तु्यज्वलभागसङ्गतांसभागिनी स्वदत्त सुप्त सप्त सिन्धु निदनाति कोविदाुनोतु तुमे मनोमलं कलिन्दिनन्दिनेशरा चलच्युताच्युताङ्गरागलम्पटालशालिनी विलोलराधिकाकशान्तकम्पकालमालिनी सदावगाहनावतेन भरतभेत्य नारदालोतु मे मनोमलम् िन्दिनन्दिने सदा सदैवनन्दनन्दकेलिशालिकुञ्जमञ्जुला ततोपुलमालिका कदम्बरेणुसुज्वला जलावकाशिनामृणां भवाब्धिसिन्धुपारदा दुनो तमे मनोमलम् कलिन्दनन्दने सदा तुमे मनोमलम् कलिन्दनन्दिने सदा तुमे मनोमलम् अलिन्दीनन्दिने